अरण्यकाण्डं सर्गं सवन् श्रीमहादेव उवाच अधरामोऽपि तत्सर्वं ज्ञात्वा रावणचेष्टितम् उवाच सीतामेकान्ते शृणुजानकिमे वचः रावणो भिक्षुरूपेण आगमिष्यति तेन्दिकं त्वं तु छायां त्वदाकारां स्थापयित्वोडजे विश अग्नावदृश्यरूपेण वर्षं तिष्टममाज्ञया रावणस्य वधान्ते मां पूर्ववत् प्राप्स्यसे शुभे श्रुत्वा रामोदिदं वाक्यं सापि तत्र तथाकरोद मायासीतां बहिस्थाप्य स्वयमन्तर्दधेनले मायासीदा तदा पश्यन्मृगं मायाविनिर्मितम् राम राममभ्येत्य प्रोवाच विनयान्विता पश्य राममृगं चित्रं कानकं रत्नभूषितं विचित्रबिन्दुभिर्युक्तं चरन्तमकुतो भयं बद्ध्वा देहि मम क्रीडा मृगो भवतु तदेदि तथेति धनुरादाय गच्छन् लक्ष्मणमब्रवीद रक्षत्वमधियत्नेन सीता मत्प्राणवल्लभां मायिनः सन्धिविपिने राक्षसा खोरदर्शनाः अधोत्रावहितः साध्वीं रक्षसीतामनिन्दिताम् लक्ष्मणो राममाखेदं देवायम् मृगूपरीचोत्र सन्देहंधो मृगकुतराम उवाच यदि मरच ये वाखन संशय मृगश्चेदी सीधा विश्रम हेतव गमिष्यामि मृगं बद्ध्वा ह्यानयिष्यामि सत्वरः त्वं प्रयत्नेन सन्दिष्ट सीता संरक्षणोऽद्यतः इत्युक्त्वा प्रययौ रामो मायामृगमनुधृतः माया यदाश्रया लोकमोहिनी जगदाकृतिः निर्विकारश्चिदात्मापि पूर्णोऽपि मृगमन्वगाद भक्तानुकम्पी भगवानिति सत्यं वचो हरिः कर्तुं सीता प्रियार्थाय जानन्नपि मृगं पूर्णकामस्य रामस्य विदितात्मनः मृगेण वास्त्रिया वापि किं कार्यं परमात्मनः कदाचिद् दृश्यतेभ्या शेक्षणम् धावधि लीयते दृश्यते च ततो दूरा देवं राममपाहरत ततो रामोऽपि विज्ञाय राक्षसोऽयमिति स्फुटम् शरमादाय राक्षसं मृगरूपिणं पपात रुधिराक्तास्यो मारीचः पूर्वरूपधृक हा हतोऽस्मि त्राहि लक्ष्मण मां ध्रुतम् इत्युक्त्वा पपात रुधिराशनः यन्नामाज्ञोऽपि मरणे स्मृत्वा तत्साम्यमाप्नुयाद किमुताग्रे हरिं पश्यन्स्ते नैव निहतो सुरः तद्देहादुद्धितं तेजः सर्वलोकस्य पश्यतः राम मे वा विशदेवा विस्मयं परमं ययुः कर्म कृत्वा किं प्राप्तः पातकी मुनिहिंसकः अथवा राघवस्यायं महिमानात्र संशयः रामबाणेन संविद्ध पूर्वं राममनुस्मरन् भयात् सर्वं परित्यज्य गृहवित्तादिकं च यद् हृदि रामं सदा ध्यात्वा निर्धोदाशेषकल्मषः अन्धे राममवापसः द्विजो वा राक्षसो वापि पापी वा धार्मिकोऽपि वा त्यजन् कलेवरं रामं स्मृत्वा यादि परं पदम् इति तदो देवा दिवं ययुः रामस्तच्चिन्तयामासं म्रियमाणो सुराधमः हा लक्ष्मणेदि मद्वाक्यमनुकुर्वन्ममारकिं श्रुत्वा इति चिन्ता परीदात्मा रामो दूराण्यवर्तत सीता तद्भाषितं श्रुत्वा मारीचस्य दुरात्मनः भीतादिदुःखसंविघ्ना लक्ष्मणं त्विदमब्रवीद गच्छ लक्ष्मणवेगेन भ्रातादे सुरपीडितः हा लक्ष्मणेरिवचनं भ्रातुस्तेन शृणोषि किं तामाह लक्ष्मणो देवी रामवाक्यं न तद्भवेद् ह्यः कश्चिद् द्राक्षसो देवीं म्रियमाणो ब्रवीद्वचः क्रुद्धो नाशयदिक्षणात् सकथं दीनवचनं भाषते मरपूजितः क्रुद्धा लक्ष्मणमालोक्यसीदा बाष्पविलोचना प्राहलक्ष्मणदुर्बुद्धेभ्रा दुर्व्यसनमिच्छसि प्रेषितो भरतेनैव राम मां नेतुमागतोऽसि त्वं रामनाश उपस्थिते न प्राप्स्यसे त्वं मामद्य पश्य प्राणान् त्यजाम्यहं न जानातीदृशं रामस्त्वां भार्याहरणोऽव्यधम् रामादन्यं न स्पृशामि वा भरतमेव वा इत्युक्त्वा वध्यमाना स्वबाहुभ्यां रुरोदः तच्छ्रुत्वा लक्ष्मणः कर्णौ पिधायातीव दुःखितः मामेवम्भाषसे चण्डि धिनाशमुश्यसीुवा वनदेवीभ्य सर्प्य जनकात्मज यय दुखादि संविघ्नोंमेव शनैशन तदोनरम सलोक्य रावणो भिशुषृक सीतासमीपमगमस्फुरद्दण्डकमण्डलुः सीतास्तमवलोक्याशु नत्वा सम्भुज्यभ्रितः कन्दमूलफलादीनि दत्त्वा स्वागतमब्रवीद मुने भुङ्क्ष्व फलादीनि विश्रमस्व यथा सुखम् इदानीमेव भर्ता ख्याग प्रियं खगमिष्य प्रिय तिष्टत्वं यदि रोचते कात्वं कमलपत्राक्षी कोवा भर्ता तवानके। के कि वासो वने राक्षस सेविते। ब्रूहि भद्रे तदस स्ववृत्तान्तं निवेदये सीदोवाच अयोध्याधिपति श्रीमान् राजा दशरथो महान् तस्य ज्येष्ठसुतो रामः सर्वलक्षणलक्षितः तस्याहं धर्मदः पत्नी सीताजनकनन्दिनी तस्य भ्राता कनीयांश्च लक्ष्मणो भ्रातृवत्सलः पितुराज्ञां पुरस्कृत्य दण्डके वस्तुमागतः चतुर्दश समास्त्वां तु ज्ञातुमिच्छामि मे वद भिक्षुरुवाच पौलस्त्यतनयोहं तु रावणो राक्षसाधिपः त्वत्कामपरितप्तोऽहं त्वां नेदुं पुरमागतः मुनिवेषेण रामेण किं करिष्यसि मां भज भुङ्क्ष्वभोगान्मया सार्धं त्यज दुःखं वनोद्भवं श्रुत्वा सीता सीताभिञ्चिदुवाच तम् यद्येवं भाषसे मां त्वं नाशमेष्यसि राघवाद आगमिष्यति रामोऽपि क्षणं तिष्ठ सहानुजः मां को दर्शयितुं शक्तो हरेर्भार्यां शशो यथा रामबाणैर्विभिन्नस्त्वं पदिष्यसि महीतले इति सीतावचृत्वा रावणक्रोधमूर्च्छितः स्वरूपं दर्शयामास महापर्वतसन्निभं दशास्यं विंशतिभुजं कालमेकसमद्युतिम् तद्दृष्ट्वा वनदेव्यश्च भूतानि च वितत्रसुः ततो विदार्यधरणीम् नखरुदृत बाहु्वा रथे क्षि्वा यय क्षिप्रम विहाय स हाम हा लक्ष्मणेदी रुदी जनकाम भयोद्विघनम पश्यी भुवमे सृत्वा तत् क्रन्दितं दीनं सीतायाः पक्षिसप्तमः जडायुरुद्धिदशिक्रं नगाग्रातीक्ष्णतुण्टकः तिष्ठतिष्ठेदितं प्राह को गच्छति ममाग्रदः मुषित्वा लोकनाथस्य भार्यां शून्याध्वनालयाद ुनकोमन्द्रपूदं त्वं पुरोडाशमिवाध्वरे इत्युक्त्वा तीक्ष्णतुण्डेन चूर्णयामास तद्रथं वाहान् बिभेदपादाभ्यां चूर्णयामास तद्धनुः ततः परित्यज्य रावणः खड्गमाददे चिच्छेदपक्षौ सामर्षपक्षिराजस्य धीमतः पपाद किञ्चिच्छेषेण प्राणेन भुवि पक्षिराट पुनरन्यरथेनाशु सीदामादाय रावणः क्रोशन्दी राम रिरातार नाधि गि हा हा जगन्नाथ मश्यस दुखिता रक्षसा नीयम स्वाम भारा मोचय राघव हा लक्ष्मण माम मराधिनी वाक्शरेण हतस्त्वं देवर इत्येवं क्रोशमानां तां रामागमनशङ्कया जगाम वायुवेगेन सिदामादाय सत्वरः विहाय सा नियमाना सीता पश्य पर्वताग्रे स्थिता पंचवानरान् जानना उत्तरीखंडेन विमुच्याभरणा बध्वा चि क्षेरा मथय पर्वते तद सम्रमुंघ्यलंका ग्रावण स्वान्धःपुरेरहस्येतामशोक विपिने क्षिपद राक्षसीभिः परिवृता मातृ बुद्ध्यान्वपालयत कृशातिधीना परिकर्मवर्जिता दुःखेन शुष्यद्वदनादिविह्वला हारामरामेधि विलप्यमाना सिधास्थिदा राक्षसवृन्दमध्ये इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे सप्तमः सर्गः ॐ